अथ षष्टितमः सर्गः सप्रविश्यपुरीम् लङ्काम् रामबाणभयार्दितः भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः मातङ्ग इव सिंहेन अभिभूतो भवद्राजा राघवेण महात्मना स्मरन् राघवबाणानाम् विव्यथे राक्षसेश्वरः स काञ्चनमयम् दिव्यमाश्रित्य परमासनम् निप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् सर्वम् तत्खलु मे मोघम् यत्तप्तम् परमन्तपः यत्समानो महेन्द्रेण मानुषेण विनिर्जितः इदम् तद्ब्रह्मणो घोरम् वाक्यम् मामभ्युपस्थितम् मानुषेभ्यो विजानीहि भयम् त्वमिति तत्तथा देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः वा अवध्यत्वम् मया प्रोक्तम् मानुषेभ्यो न याचितम् तमिमम् मानुषम् मन्ये रामम् दशरथात्मजम् इक्ष्वाकुकुलजातेन अनरण्येन यत्पुरा उत्पत्स्यति हि मद्वंशपुरुषो राक्षसाधमा यस्त्वाम् स सामात्यं सामात्यम् साश्वसारथिं। साश्वसारथिम् निहनिष्यति सङ्ग्रामे त्वाम् कुलाधमदुर्मते शप्तोऽहम् वेदवत्या च यथा साधर्षिता पुरा सीता महाभागा जाता जनकनन्दिनी उमानन्दीश्वरश्चापि रम्भावणकन्यका यथोक्तास्तन्मया प्राप्तम् न ऋषिभाषितम् एतदेव समागम्य यत्नम् कर्तुमिहार्हथा राक्षसाश्चापि तिष्ठन्तु चर्या गोपुरमूर्धसु स भीममादिदेशमहाबलः द्वारेषु यत् प्रः क्रियताम् प्राकारश्चाधिरुह्यताम् निद्रावशसमाविष्टः कुम्भकर्णोऽ विबोध्यताम् सुखम् स्वपिति निश्चिन्तः कामोपहतचेतनः नवसप्तदशाष्टौ च मासान् स्वपिति राक्षसः मन्त्रम् कृत्वा प्रसुप्तोऽयमितस्तु नवमेहनी तम् तु बोधयत क्षिप्रम् कुम्भकर्णम् महाबलम् स हि महा ककुदं महाबाहुः ककुदम् सर्वरक्षसा वानरान् राजपुत्रौ च हनिष्यति एष केतुः परम् सङ्ख्ये मुख्यो वै सर्वरक्षसा कुम्भकर्णः मूढो ग्राम्य सुखे रतः रामेणाभिनिरस्तस्य सङ्ग्रामेऽस्मिन् सुदारुणे भविष्यति न मे विबोधिते किम् करिष्याम्यहम् तेन शक्रतुल्यबलेन हि ईदृशेऽ्यसमेघोरे यो तद्वचनम् श्रुत्वा राक्षसेन्द्रस्य राक्षसाः जग्मः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ते रावणसमादिष्टा मांस शोणितभोजनाः ताम् प्रविश्य महाद्वाराम् सर्वतो योजनायताम् कुम्भकर्णगुहाम् रम्याम् पुष्पगन्धप्रवाहिनी कुम्भकर्णस्य निःश्वासादवधूता महाबलाः प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम् ताम् प्रविश्य गुहाम् रम्याम् रत्नकाञ्चन कुट्टिमाम् ददृशम् भीमविक्रमम् ते तु तम् विकृतम् सुप्तम् विकीर्णमिव पर्वतम् कुम्भकर्णम् महानिद्रम् समेताः प्रत्यबोधयन् ऊर्ध्वरोमाञ्चित तनुम् श्वसन्तमिव पन्नगम् भ्रामयन्तम् विनिश्वासैः शयानम् भीम विक्रमम् भीमनासापुटम् तम् तु काञ्चनाङ्गनदग्धाङ्गम् किरीटेनार्कवर्चसम् ददशोर्नैररतव्याघ्रम् कुम्भकर्णमरिन्दमम् ततश्चक्रुर्महात्मानः कुम्भकर्णस्य चाग्रतः भूतानाम् मेरुसङ्काशम् राशिम् परमतर्पणम् मृगाणाम् महिषाणाम् च वराहाणाम् च सञ्चया चक्रुर्नैरतशार्दूला राशिमन्नस्य चाद्भुतम् ततः शोणितकुम्भांश्च मांसानि विविधानि च पुरस्तात् कुम्भकर्णस्य चक्रुस्त्रिदशत्रवः परार्धेन चन्दनेन परम् तपम् दिव्यैराश्वासयामासुर्माल्यैर्गन्धैश्च गन्धिभिः धूपगन्धांश्च ससृजस्तुष्टुवश्च परम् तपम् जलदा इव चाने शङ्खांश्च पूरयामासु शशाङ्क सदृशप्रभान् तुमुलम् युगपच्चापि विनेदुश्चाप्यमर्शिताः नेदुरास्फोटयामासुश्चिक्षि पुस्ते निशाचराः कुम्भकर्ण विबोधार्थम् चक्रुस्ते विपुलम् स्वरम् स शङ्खभेरी दिशो द्रवन्तस्त्रिदिवम् किरम् तः श्रुत्वा विहङ्गाः सहसा निपेतुः यदा भृशन्तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः ततो भुषुण्डीर्मुसलानि सर्वे रक्षो गणास्तेजगृहुर्गदाश्च सुख प्रसुप्तम् भुवि कुम्भकर्णम् रक्षाम् स्युदग्राणि तदानि जघ्नुः तस्य निःश्वासवातेन कुम्भकर्णस्य राक्षसः राक्षसाः कुम्भकर्णस्य स्थातुम् शेकुर्न चाग्रतः ततः परिहिता गाढम् राक्षसा भीम विक्रमाः मृदङ्गपणवान्भेरी शङ्ख कुम्भगणांस्तथा दश राक्षससाहस्रम् युगपत् पर्यवारयत् नीलाञ्जन तेतुतं याकारम् ते तु प्रत्यबोधयन् अभिघ्नन्तो नदन्तश्च न च तदा यदा चैनम् न शेकुस्ते तदा ततो गुरुतरं यत्नम् दारुणम् समुपाक्रमन् अश्वानुष्ट्रान्खरान्नागान् जघ्मर्दण्डकशाङ्कुशैः भेरी शङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् निजघ्नश्चास्य गात्राणि महाकाष्ठकटङ्करैः का मुद्गरैर्मुसलैश्चापि सर्वप्राणसमुद्यतैः तेन महता लङ्का सर्वा प्रपूरिता सपर्वतमना प्रबुध्यते ततो भेरी सहस्रम् तु युगपत्समहन्यता मृष्टकाञ्चलकोणानामसक्तानाम् ना समन्ततः निद्रस्तु यदा नैव प्रबुध्यते शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ततः कोपसमाविष्टाः सर्वे भीमपराक्रमाः तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् अन्ये, अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् केशानन्ये प्रलुपुः कर्णानन्ये दशन्ति उदकुम्भशतानन्ये समसिच्चन्तकर्णयोः न कुम्भकर्णः पस्पन्दे महानिद्रावशम् गतः अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः मूर्ध्निवक्षसि गात्रेषु पातयन् कूटमुद्गरान् रज्जुबन्धनबद्धाभिः शतघ्रीभिश्च सर्वतः बध्यमानो महाकायो न वारणानाम् सहस्रम् च शरीरेऽस्य प्रधावितम् कुम्भकर्णस्तदा बुद्ध्वा स्पर्शम् परमबुध्यता सपात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयम् स्तान् निकुलान् प्रहारान् निद्राक्षयात् क्षुद्भय पीडितश्च विजृम्भमाणः सहसोत्पपाता स नागभोगाचल शृङ्ग विवृत्य वक्त्रम् बडवा मुखाभं निशाचरो निशाचरोऽसौ विकृतं जजृम्भे तस्य जाजृम्भमाणस्य वक्त्रम् पातालसन्निभम् ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः सजृम्भमाणोऽतिबलः प्रबुद्धस्तु निशाचरः निःश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः कुम्भकर्णस्य तद्बभौ युगान्ते सर्वभूतानि कालस्येव दिधक्षतः तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ददृशा ते महानेत्रे दीप्ता विव महाग्रहौ ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् वराहान्महिषांश्चैव बभक्षसमहाबलः आदद् बुभुक्षितो माम् मेदः कुम्भांश्च मद्यांश्च शक्ररिपुस्तदा ततस्त्रप्त इति ज्ञात्वा समुत्पेतुम् निशाचराः शिरोभिश्च प्रणम्यैनम् सर्वतः पर्यवारयन् निद्राविशदनेत्रस्तु कलुषीकृतलोचनः चारयन् सर्वतो दृष्टिम् तान्ददर्शनिशाचरान् स सर्वान् सान्त्वयामास नैरृतान्नैरृतर्षभः बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् किमर्थमहमादृत्य भवद्भ्यः प्रतिबोधितः कच्चित् सुकुशलम् राज्ञो भयम् अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् दारयिष्ये महेन्द्रम् वा शीतयिष्ये तथा नलम् न ह्यल्पकारणे सुप्तम् बोधयिष्यति मादृशम् तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् एवम् नो न नो देव कृतम् किञ्चित् भयमस्ति कदाचन मानुषान्नो भयम् राजम् स्तुमुलम् सम्प्रबाधते न दैत्यदा न वेभ्यो वा भयमस्त्य न न न न न न न न न न नः क्वचित् यादृशम् मानुषम् राजन् भयमस्मानुपस्थितम् वानरैः पर्वताकारैर्लङ्केयम् परिवारिता सीताहरणसन्तप्ता द्रामान्नस्तु मुलम् भयम् एके वानरेणेयम् पूर्वम् दग्धा महापुरी कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः स्वयम् रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः व्रजेति संयुगे मुक्तो रामेणादित्यवर्चसा यन्न देवैः कृतो राजानापि दैत्यैर्नदानवैः कृतः स इह स यूपाक्षवच श्रुत्वा भ्रातुर्युधि पराभवम् कुम्भकर्णोऽविवृत्ताक्षो यूपाक्षमिदमब्रवीत् सर्वमद्यैव यूपाक्ष हरिसैन्यम् स लक्ष्मणम् राघवम् चरणे जित्वा ततो द्रक्ष्यामि रावणम् राक्षसाम् तर्पयिष्यामि हरीणाम् मां स शोणितैः पास्यामि शोणितम् तत्तस्य वाक्यम् ब्रुवतो निशम्यस गर्वितम् रोष विवृद्धदोषम् महोदरो नैरृतयोधमुख्यः कृताञ्जलिर्वाक्यमिदम्बभाषे रावणस्य वचश्रुत्वा गुणदोषौ विमृश्य च पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि महोदरवचः राक्षसैः परिवारितः कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः सुप्तमुत्थाप्य भीमाक्षम् भीमरूप पराक्रमम् राक्षसास्त्वरिता जग्मुर्दशग्रीव निवेशनम् तेऽभिगम्य परमासने ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ते राक्षसेश्वर कथम् तत्रैव निर्यातु द्रक्ष्यसेतमिहागतम् रावणस्त्वब्रवीद्धृष्टो राक्षसां स्तानुपस्थितान् द्रष्टुमेन मिहेच्छामि यथा न्यायम् च पूज्यताम् तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः कुम्भकर्णमिदम् वाक्यमूचू रावणचोदिताः द्रष्टुम् त्वाम् काङ्क्षते राजा सर्वराक्षसपुङ्गवः गमने क्रियताम् बुद्धिर्भ्रातरम् सम्प्रहर्षया कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञायशासनम् तथेत्युक्त्वा महावीर्यः शयनादुत्पपातः प्रक्षाल्यवदनम् हृष्टः स्नातः परमहर्षितः पिपासुस्त्वरयामासपानम् बलसमीरणम् ततस्ते त्वरितास्तत्र राक्षसा रावणाज्ञया मद्यम् भक्ष्यांश्च विविधान् पीत्वा घटसहस्रे द्वे मत्तस्तेजो बलसमन्वितः कुम्भकर्णो बभोरुष्टः कालान्तकयमोपमः रक्षो बलसमन्वितः कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् स राजमार्गम् वपुषा प्रकाशयन् सहस्र दृष्ट्वा प्रमेयम् गिरिशृङ्ग कल्पम् वितत्र सुस्ते सह यूथपालैः केचिच्छरण्यम् शरणम् स्मरामम् व्रजन्ति केचिद् व्यथिताः पतन्ति केचिद्दिशश्च व्यथिताः पतन्ति केचिद्भयात्ता भुवि शेरते स्म तमद्रिशृङ्गप्रतिमम् गिरीटिनम् वनोकसः प्रेक्ष्य विवृद्धमद्भुतम् भयार्दितादुद्रुविरेयतस्ततः इत्यार्षे श्रीमद् रामायणे वाल्मीकिये आदिकाव्ये युद्धकाण्डे षष्टितमः सर्गः